सरस्वती नमस्तुभ्यं वरदेकामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा नमो नमः पुनः एकवारं सर्वेषां स्वागतम् अद्य दिनस्य विषयः अस्ति तुमन्त तुम्तें वह अयन आरंभ तत्व अनेंतक अभ्यास कू अन कथायाद कथाया विशेषता वर्त वदामि अनन्तरम् अस्तु तत्र दृष्टवन्तः त्वान्त ल्यबन्त धातुसाधित अव्ययः एव धातुसाधित अव्ययः तेषां कृते एका संज्ञा पूर्वकालवाचक कपेल् इति तुमन्तप्रत्ययान्तशब्दानां कृते का संज्ञा हेत्वर्थक् अव्यय एव परन्तु तत्र हेट् टु अर्थक् आङ्ग्लभाषायां वयं वदामः तत्र फार् इति आगच्छति हा तत्र पातुम् इति अस्ति चेत् फार् किं किङ्ग् इति अस्ति एवम् अद्यदिने किञ्चित् अस्माकं जालपुटे यद्दत्तमस्ति तस्य अभ्यासं कुर्मः किं दत्तमस्ति चेत् एकवर्षम् अहं स्क्रीन् शेर् दृश्यते सर्वेषां दृश्यते स्कीय आम। भरतमहोदय भवान् वयं पठितवन्तः इदानीम् अभ्यासः हा। तत्र आरम्भं करोतु कोष्ठगतशब्दानां तु मुन्तप्रदेषु परिवर्त्य रिक्तस्थानानि पूरयतु ततः आरम्भं करोति वा नहीं। नहीं। नहीं। नहीं। परिवर्त्यस्थाने रिक्तस्थानानि पूरयतु राजेशः पृच्छति राजेशः कथु कथुनम् इच्छति अत्र तु प्रत्ययम् राजेशः कथनम् इच्छति इति दत्तमस्ति कथनं कृते तुन्तशब्दौ कथितुं कथितुं राजेशः कथितुम् इच्छति इति भवति ओके okay. अग्रिमं रमेशः गमनं गम गमन्तु गमन गमन्तु इच्छति रमेशः गमनं गच्छतु गच्छतुम् इच्छः गच्छतुम् इच्छति देनि गन्तुं न भवति वा गन्तु हा गन्तुं okay. गमनं शब्दस्य मकारस्य नकारस लु गन्तुं क्षम्यता सम्यक् रमेशः गम गं, गन्तुम् इच्छति गमितुमपि न गच्छतुम् इच्छतु गच्छतु न गन्तुं गन्तुमिच्छति रमेशः गन्तुम् इच्छति okay. अग्रिमं शिशुः शिशुः खादितुम् इच्छति खादितुम् इच्छति खादितुम् इच्छति खादितुम् इच्छति बालकः बालकः चलितुम् इच्छति चलितुम् इच्छति सम्यक् ओके कर्मकारः कर्म करणं कर् कर्तुं कर्तुम् इच्छति कर्मकरः कर्म कर्तुम् इच्छति कर्तुम् इच्छति अहं पठूनां पठूनां विद्यालयं विद्यालयं गच्छामि पठितुं पठितुं विद्यालयं गच्छामि देवदत्तः दत्तः सत् यनार्थं तत्र इति शिष्यः वन्दनार्थं वन्दनार्थ भक्ताः अर्चनार्थं मन्दिरं गच्छति तत्र किं भवति शिष्याः किमुक्तवान् शिक्षाः वन्दनार्थं वन्दनार्थम् इत्युक्ते तत्र किम् आगच्छति तुमुन् प्रत्ययन्तशब्द वन्दनार्थं वन्दनार्थं तत्र वन्दनार्थमित्युक्ते तत्र अर्थस्य दृष्ट्या वन्दनार्थमिति दत्तं तुमुन् प्रत्ययन्तशब्दः किं भवति वन्दनार्थं न वन्दितुं वन्दितु अग्रिमे वाक्ये अपि अर्चनार्थम् अर्चितुम् अर्चितुं मन्दिरं गच्छति भक्ताः अर्चनार्थं मन्दिरं गच्छति पुषकः खार्दनार्थं खादनार्थं भोजलं भोजना तत्र खादनार्थम् इत्युक्ते खादितुं खादनार्थम् अर्थ मुषकः खादितुं भोजनालयं प्रविशति खादितुम् इति आगच्छति खादितुम् आरक्षकाः रक्षणार्थं पाये तिष्ठति रक्षणा रक्षणार्थं रक्षितु रक्षितु अत्र किं भवति महोदय तत्र राकेट् मध्ये शयनार्थं बन्धनार्थम् अर्चनार्थं खादनार्थं रक्षणार्थं तत्र कार्यस्य हेतु हेतुः कः तत् शयनार्थं गच्छति बन्धनार्थं गच्छति अर्चनार्थं गच्छति परन्तु तुमुन् प्रत्ययन्तशब्द तुमुन् प्रत्ययन्तशब्दानां कृते रूपं कथं भवति रक्षणार्थं भवे चेत् रक्षितुम् इति वदतु अस्तु धन्यवादः महोदय धन्यवादः रमणी भगिनी भवति पठति वा आं भगिनी कोष्ठे दत्तेन धातुना सह तुमुन प्रत्ययं योजय उदितं रोगं क्ते स्थाने लिखतु गोविन्दः तत्र शक्नोति गोविन्दः तत्र तिष्ठतुं शक्नोति छा इति धातु अस्ति तस्य तुमुन् प्रत्यय स्थातुं स्थातुं स्थातुं तिष्ठपदा भवति यथा लट्लकाररूपाणि तत्र लट्लकारे तिष्ठ इति भवति अत्र तुमुन् प्रत्यये तुमुन् प्रत्ययः किं भवति पठातुम् एवं अग्रिमे बालिका एतत् पुस्तकं डेश् शक्नोति हा बालिका एतत् पुस्तकं पठितुं शक्नोति सम्यक् अग्रिमे यूयं गीतां शक्नुथा डेश् शक्नु उपदिश् यूयं गीताम् उपदेशयितुं तत्र भवती किञ्चित् भिन्नप्रकारेण चलति तत् दिश् इति धातु अस्ति उप इति उपसर्गमस्ति दिश दिश् अतिसर्जनम् इति धातु तत्र रूपं भवति उपदेष्टुम् इति यूय उपदेष्टुं शक्नु इति अस्ति दिशधातोः कृते त्वाप्रत्ययप्रत्ययौ वयं दृष्टवन्तः दिशधातोः कृते त्वा प्रत्ययान्तरूपं भवति दिष्ट्वा दिष्ट्वा इति दिष्ट्वा प्रत्यय प्रदिश दिष्ट्वा प्रदिश्य अत तुम प्रत्यय होती दु उपदेम गीता उपदे उप्रिम गीता शक्त बानर वृक्ष डेश शक्नो आरो आरो आरो इति धातु अस्ति रुह धातु तस्य आरोढुम् आ इति उपसर्ग आरोढुम् इति प्रत्ययन्तरूपम् अस्ति वानरः वृक्षम् आरोढुं शक्नोति इति अस्ति अत्र आरुह इति न प्रत्ययन्तरूपम् आरोढुम् लेफ्ट् प्रथयुह्य आरुह्य कवितां शाखामित्यस्ति खलु प्रसिद्धः श्लोकः तत्र लेफ्ट् प्रत्यय आरुह्य त्वा प्रत्ययन्त किं भवति कोऽपि जानति वा त्वा प्रत्ययुह्य यदा रुहधातुः अस्ति चेत् रुढुवा कारम्भिकं डकारमिलदे एकेन सूत्रेणकारम्भिकं ढकारम् षड्यं षद्यं सत्यं इति शक्नोति अग्रिमे शर्पः बिलं डेश् शक्नोति प्रविश्य प्रविश प्रविशतुं प्र उपसर्गपूर्वकविश् <सगे> तत्र भवति विश् प्रवेष्टुं तुत्ययः प्रवेष्टुं किञ्चित् भिन्नप्रकारे चलति विष् धातु रुहधातु उपसर्गसहितप्रविश प्रवेष्टुं सर्पः बिलं प्रवेष्टुं शक्नोति एवं भवति आगच्छति कथं प्रथमवारम् एव वयं यदा यदा पठामः चेत् तत् भवति एव अस्तु धन्यवादाः अग्रिमे जय श्री करोति वा आं बेनि त्वान्ते तुमनन्ते च परिवर्तनस्य अभ्यासः उदाहरणम् एकनिमिषम् एकनिमिषं तत्त्व तत्र इदानीं त्वान्ते तुमुन्ते त्वान्तप्रत्यय तुमुन् प्रत्ययः परिवर्तनं कथं भवति त्वान्त पूर्वकालवाचिक्रिया तुन् इतित्वार्थ तत्र वाक्यानि सन्ति त्यय अपि तत्र अस्ति स्वान्तप्रत्ययस्य उपान्तयः कथं भवति तत् उदाहरणार्थमपि दत्तमस्ति पठतु इदानीम् अस्तु भेण उदाहरणम् अनु उदाहरणम् अनुसृत्य वाक्यानां परिवर्तनं करोतु वर्तमानकाले पितामही स्नाति पितामही पिता देवम् अर्चति स्वान्तरूपे पितामही पिता स्नानं कृत्वा देवम् अर्चति तुमुनान्तरूपे पितामही देवम् अर्चितुं स्नानं करोति तत्र किम् अभवत् पश्यन्तु सर्वे कृत्वा पितामही स्नाति अनन्तरं पितामही देवम् अर्चति देवानाम् अर्चनं पूजा भवेत् चेत् स्नानम् आवश्यकं शुचीकरणम् आवश्यकम् अतः पितामहे प्रथमतः तु स्नाति अनन्तरं सा देवं अर्चति इत्युक्ते यदा त्वा प्रत्ययस्य योजना भवेत् चेत् कथं भवति पितामहे स्नानं कृत्वा क्रिया पूर्वकालिकक्रिया पूर्वकालिकक्रिया स्नानं स्नानं करणीयमिति क्रिया त्वा प्रत्यये कुत्र आगच्छति पूर्वकालिक् प्रिया स्वीकृत्य तत्र त्वा प्रत्यये आगच्छति अतः पितामही स्नानं कृत्वा अनन्तरं देवम् अर्चति इत्युक्ते पितामही स्नानं कृत्वा देवम् अर्चति इदानीं तुमु प्रत्यये परिवर्तनं भवेत् कथं भवेत् तुमुनिति हेतु हेतु पितामय्याः हेतुः कः देवानाम अर्चनं करोमि पूजां करोमि इति हेतु तस्याः हेतु अस्ति देवपूजा इति देवानाम् अर्चनमिति अर्चितुं तस्मात् कारणात् हेतु मनसि अस्ति देवपूजा देवानाम् अर्चनमिति हेतुः मनसि अस्ति अतः पितामही स्नानं करोति वाक्यपरिवर्तनं कथं भवति पितामही देवम् अर्चितुं स्नानं करोति पश्यन्तु प्रथमः विभागः पितामहः स्ना स्नाति द्वितीयः विभागः देवम् अर्चति त्वान्तप्रत्ययस्य योजनेन पूर्वकालिक्रियाया स्ना स्नानस्य क्रिया पूर्वकालिक्रिया अतः पितामही स्नानं कृत्वा इति आगच्छति देवम् अर्चति परन्तु हेत्वार्थक् इति वदामः चेत् प्रथमतः तु अर्चनस्य कृते देवानाम् अर्चनस कृते शुचीकरणं तत् स्नानम् आवश्यकम् पितामही इच्छति देवानाम् अर्चनं करणीयमिति अतः सा स्नानं करोति हेत्वार्थ कुत्र आगच्छति अर्चना अचि अर्चितुम् अर्चति अर्चितुं तु देवम् अर्चितुं स्नानं करोतु अतः अग्रिमे यानि वाक्यानि सन्ति तत्र विभागद्वयं वर्तते सर्वेषु तथैव चिन्तनं भवेत् पूर्वकालिकया क्रिया तस्य त्वा प्रत्ययस्य योजनेन वाक्यं निष्पद्यते अनन्तरं हेट्वार्थं दृष्ट्वा तत्र यः हेतुः अस्ति अस्तु तरी तत्र एव तुमन् प्रत्ययः आगच्छति इति विचिन्त्य एव अस्माभिः तत् तुमन् प्रत्ययान्तवाक्यं करणीयम् अस्तु इदानीं पठतु शिशुः दुग्धं पिबति शिशुः क्रीडति त्वान्तरूपं शिशुः दुग्धं पीत्वा क्रीडति सम्यक् तुमुनन्तरूपं शिशुः क्रीडन क्रीडितुं दुग्धं पिबति शिशोः शिशोः हेतुः अस्ति क्रीडनं माता वदति प्रथमं दुग्धं पिबतु अनन्तरम् एव क्रीडाङ्गणं गच्छतु अतः शिशुः किं करोति शिशुः एकवारं पुनः वदतु भगिनी तुमुन् प्रत्ययं शिशुः क्रीडितुं दुग्धं पिबति सम्यक् क्रीडितुं दुग्धं पिबति परन्तु त्वान् प्रत्यये किं भवति शिशुः दुग्धं पीत्वा क्रीडति पीत्वा किमर्थं पूर्वकालिक्रिया अस्ति दुग्धप्राशनं प्रथमं भवति क्रीडनम् अनन्तरम् तदनन्तरं क्रीडनकार्यं भवति सम्यक् अतः पूर्वकाली क्रिया इति माता पाकशालां गच्छति माता ओदनं पचति त्वान्तरूपं माता पाकशालां गत्वा ओदनं पचति तुमनन्तरूपं भवति मादा, माता आ, नहीं। माता ओदनं पक्तुं पाकशालां गच्छति तत्र पक्तुं माता तस्याः हेतुः ओदनस्य पाचनम् ओदनस्य पाचनम् अतः सा किं करोति पक्तुं पाकशाला पाकशालां गच्छति सम्यक् अग्रिमे नर्तकी नृत्यति जनान् तोषयति नर्तकी नृत्वा जनान् तोषयति स्वान्तरूपं अस्तु नर्तकी नर्तित्वा जनान् तोषयति स्वान्तरूपं तुमुनन्तरूपं नर्तकी तोष् तोषितुं जनान् तोषय सारि नर्तकी जनान् तोषयितुं नृत्यति हा तत्र तोष्टुम् इति आगच्छति अस्तु भगिनि तोष्टुम् आगच्छति किल शकारं भवं भवति सूत्रेण सत्यम् अस्तु रामृत्यति सम्यक् अग्रिमं रामः विद्यालयं गच्छति अध्ययनं करोति त्वा त्वान्तरूपं भवति रामः विद्यालयं गत्वा अध्ययनं करोति तुमुनन्तरूपं भवति रामः अध्येतुं भवति सम्यक् भगिनी सत्यं तत्र वयं अध्ययनं करोति अस्ति खलु अध्येतुम् अध्येतु रामः अध्येतुं विद्यालयं गच्छति नो रामः अध्ययनम् अध्ययनं कर्तुं विद्या अध्ययनार्थम् अध्ययनार्थम् अपि वक्तुं शक्यते अध्ययनार्थं तु नास्ति खलु अस्तु अस्तु अस्तु भगिनी त्वं मधुरं खादसि त्वं मधुरं खादसि हस्तं प्रक्षालयसि त्वं मधुरं खादित्वा हस्तं प्रक्षालयसि त्वां भवति त्वं प्रक्षालयितुं सारि प्रक्षालितुं मधुरं खादसि सारी त्वं त्वं मधुरं खादितुं प्रक्षा खादितुं प्रक्षाल्य हस्तं प्रक्षालय प्रक्षाल्यसि प्रक्षालयसि प्रथमता तु न प्रथमता तु मधुरं खादसि तदनन्तरं प्रक्षालनकार्यं भवति मधुरं खादितुं हस्तं प्रक्षालय मधुरं खाद खादितुं हस्तं प्रक्षालयति प्रक्षालयति इति मन्ये यतोहि तत् भोजनापा एव तस्य पूर्वे एव हस्तप्रक्षालनं आवश्यकं खलु अतः तत्र तथैव अग्रिमे शिष्यः रामायणं पठति अर्थं वदतु शिष्यः रामायणं पठित्वा अर्थं वदति इति त्वान्तरूपं भवति शिष्यः वक्तुं रामायणं पठति पठति हा सम्यक् अस्ति सी, मनसि इच्छा अस्ति अहं रामायणस्य निरूपणं करोमि तत, तत् अतः तत् कारणात् सः रामायणं पठति हेतु अस्ति इति सम्यक् माला माला आपणं गच्छति शाकानि आनयति माला क्वान्तरूपं भवति माला आपणं गत्वा शाकानि आनयति तुनन्तरूपं भवति माला माला शाकानि आनी आनय आनेतुम् आपणम् आनयतु अस्तु माला शाकानि आनेतुम् आपणं गच्छति सम्यक् अहम् कारयानं चालयामि सिङ्गल् सेण्टेन्स् अहं कार्यालयं गच्छामि अहं कारयानं चालयामि कार्यालयं गच्छामि कारयानं चालयामि कार्यालयं गच्छामि अहं चालित्वा कार्यालयं तत्र यः कार् अस्ति किमर्थं तत् निच् प्रत्ययः अस्ति खलु तत्र कारयानं चलति कार यानं स्वयं न चलति तत्र चालनं भवति अतः तत्र निच् प्रत्ययः चालयित्वा चालयित्वा इति कार् अहं कारयानं चालयित्वा कार्यालयं गच्छामि तुमनन्तरूपं भवति अहं कार्यालयं गन्तुं कारयानं चालयामि वानर वानरः वृक्षम् आरोहति फलं खादति त्वान्तरूपं भवति वानरः वृक्षम् आरो आरो आरोढ्य आरोह्य आरोढ्य फलं खादति इति उपसर्गः अस्ति अतः सत्यम् अहं कन्फ्यूषन् अभवत् आरुह्य वानरः वृक्षम् आरुह्य फलं खादति तुमुनन्तरूपं भवति वानरः फलं खादितुं वृक्षम् आरोह्य आरोहति अन्तिमं भवान् क्रीडति पदकं प्राप्नोति भवान् पदकं प्राप्तुं क्रीडति सारि पदकं रूपं भवान् क्रीडित्वा पदकं प्राप्नोति भवति भवान् पदकं प्राप्तुं क्रीडति प्राप्तुं मनसि पदकस्य विषये अभिलाषा वा आशा अस्ति अतः भवान् क्रीडति सम्यक् अस्तु तर्हि अस्माकं जालपुटे यद्दत्तमस्ति तस्य विषये भोः पठकनिमिषम् अस्तु स्पष्टमस्ति सर्वेषां कृते त्वां तु भगिनि स्पष्टमस्ति स्पष्टमस्ति अस्तु इदानीं तत्र विना भगिनी पठितुं शक्नोति इदानीं सा उक्तवती अन्ते किञ्चित् भिन्नप्रकारेण भवन्तः सर्वे वदन्ति तेन प्रकारेण एव असम् अग्रिमं पठनम् अस्ति इति दृश्यते वा न वा वदन्तु सर्वे एकनिमिषम् स्क्रीन् दृश्यते हा दृश्यते भगिनी अस्तु विना भगिनी भवती पठति वा श्लोकं हा भगिनि येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः तेलोके मर... मत... मर्क्यलोके भुविभारभूता मनुष्यरूपेण मृगाश्चरन्ति एकम् सुभाषितमस्ति नीतिशतकात्मशतिकम् नीत इति एका रचना तत्र सुभाषितम् वर्तते येषाम् न विद्या न तपो न दानम् ज्ञानम् न शीलम् न गुणो न धर्मः ते मर्त्यलोके भूविभारभूता मनुष्यरूपेण मृगाश्चरन्ति प्रथमता तु सुभाषितस्य अर्थम् अद्यदिने वयं सर्वे मिलित्वा कथायाः रचनां कुर्मः तत्र कथा, कथा इत्युक्ते अनेकवारं वयं पठितवन्तः अद्यदिने पठनं मास्तु सर्वे एकम् एकं वदन्ति अनन्तरं कथायाः रचना तत्र भविष्यति एव वयम् एव रचयामः कथा इति विषये सुभाषितः वयम् आरम्भं कुर्मः सुभाषितमस्ति येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्म अत्र विना भगिनी किञ्चित् वक्तुं शक्नोति प्रथमा पङ्क्तिः वा द्वितीया पङ्क्तिः विषयः कः सर्वेषां कृते अद्यदिने संस्कृतभाषायाम् एव वक्तव्यं प्रयत्नं करोतु विद्यां भवितुमर्हति येषां न विद्या न तपः न दानं न ज्ञानं न शीलं न गुणः न धर्म इति दत्तमस्ति इत्युक्ते इत्युक्ते विद्या न धर्मः वा ज्ञानमपि सा नास्ति सम्यक् विद्या नास्ति अनन्तरं किं किं नास्ति तपः नास्ति दानं नास्ति ज्ञानं नास्ति शीलम् अपि नास्ति गुणः अपि अपि न नास्ति धर्मः धर्मः अपि नास्ति वा नास्ति सम्यक् उत्तमं येषां विद्यापि नास्ति तपः येषां समीपे विद्या विद्या नास्ति नो एजुकेशन् इति वक्तुं शक्नुमः न तपः अत्र तपः इत्युक्ते नो ट्रेडिट् टु हार्ड्वर्क् इति न तपः न दानं दानवृत्तिः नास्ति न ना ज्ञानं ज्ञानमिति विज्डम् वा नोलेज् इति वक्तुं शक्नुमः न शीलं शीलं केरेक्टर् नास्ति न ना गुणः नो वर्च्यूस् नो गुड् क्वालिटीस् न धर्मः न धर्म, अत्र धर्मः पि भवान् उक्तवती धर्म इत्युक्ते तत्र कोड् आफ् कण्डक्ट् एवं धर्मविषयकः इदानीं यत् प्रचलति तत् नास्ति धर्म इत्युक्ते कोड् आफ़् कण्डक्ट् तदपि नास्ति येषाम् एतत् सर्वं नास्ति तेषां किं भवति अग्रिमे वाक्ये किमस्ति विना भगिनी अग्रिमं वाक्यं ते मर्त्यलोके इत्युक्ते किं परलोके मर्त्यलोके इत्युक्ते अस्मिन् लोके इहलोके अत्र मरणं तु अस्ति एव एषु लोकेषु तत्र लोके एकस्मिन् लोके, एक लोके मरणं तु भवेदेव तत्तु निश्चिततया वयं वक्तुं शक्नुमः जननः अपि अस्ति मरणमपि नास्ति अतः इह लोकः इह भूलोकः मर्ते लोकः अस्तु ते येषाम् एतत् सर्वं नास्ति ते इह लोके भुवि भारभूता भुवि इत्युक्ते किं भवितुमर्हति विना भगिनी भूवि भुवि इत्युक्ते भूमिः सम्यक् उत्तमं भूमि भारभूता इत्युक्ते भारभूतम् इत्युक्ते किमपि न करोति किमपि न करोति व्यर्थजीवति व्यर्थजीवनं जीवनं व्यर्थतयापयति कथं व्यर्थतया भारभूत्वा एव भार इत्युक्ते कस्य कृते पुत्रस्य कृते भारः मातुः भारः भारभूता समेष्टि समाज अन्येषां लोका कृते अपि भार एव तादृशं जीवनं तेषां ते, ते लोके भुवि भारभूता इदानीं मीना भगिनी वदतु कस्य कस्य लोके जीवनं भूता भवति कस्य भवति आलस्य मनुष्यस्य जीवनं प्रथमः पङ्क्ति द्वितीया पङ्क्ति तपः एव वदतु भवती एव वदतु येषां न विद्या न तपः न, न, न, न दानं न ज्ञानं न शीलं न गुणः न धर्मः अपि तेषां जीवनं कथं भुवि भारः भूता भवति उमौ भार ऊमौ भार एव भुविभारभूता कुत्र इहलेके मर्तले mm. अन्तिमापङ्क्तिः अन्तिमापङ्क्तिः इति अस्माकं कथायाः विषयः अस्ति mm. मनुष्यरूपेण मृगाः चरन्ति mm. mm. मनुष्यरूपेण मृगाः चरन्ति पश्यन्तु तत्र मृग इत्युक्ते मृग इत्युक्ते कः भगिनिमल्स्वापदाः मृगा इत्युक्ते यथा य श्लोकस्य रचना अभवत् तदा मृगा इत्युक्ते डियर् ओन्लि अनन्तरम् इदानीं मृगाशब्दस्य अर्थः श्वापदाः सर्वे पशवः मृगाः कस्मिन् समये मृगा इत्युक्ते डिय इति मनुष्यरूपेण स्वापदाः वा पशवाः एव चरन्ति तेषां मनुष्य इति संज्ञा न भवेत् ते मृगाः श्वापदाः एव वा मृगवत् तेषां जीवनम् इति सुभाषित्कारस्य आशयः इतः स्पष्टमस्ति हा भगिनि स्पष्टमस्ति धन्यवादः अस्तु हा अग्रिमे कथा एषा कथा अस्ति खलु सर्वेषां कृते मरणे भवेत् राधा भगिनी वक्तुं शक्नोति आं भगिनि सुभाषितस्य अर्थः स्वशब्दै संस्कृतभाषायां वदतु पुनरेकवारं वदतु भगिनि सुभाषितस्य अर्थ संस्कृतभाषायां वदतु संक्षिप्तरूपेण वदतु ओके Uh, uh, सुभाषितस्य अर्थं uh, uh, ते मानसा uh, न, न दानं करोति न ज्ञानम् अस्ति न शीलमस्ति करोति ते uh, मनुष्यरूपे आसीत् परन्तु uh, मृगसमानमस्ति तस्य चरणम् उत्तमं भगिनी भूविः समान मृह सन तम जीवनमेट सुभाषित आशय इदान कि आरंभं कुर शुण्वंतु सर्वे शो तुम हैं, सर्वे, शोत शक्नो ना भगनी सुभाषित्र नामना एक नृप आसी तस्था एक कवी आस सः कविः सुभाषितं रचितवान् येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मं ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति श्लोकं रचितवान् एषः कवि कदा भोजराजा तत्र भोजराज्ञः दरबारे सः रचितवान् इत्युक्ते तस्य आस्थाने दरबारे आस्थाने सः रचितवान् अस्तु श्लोकं तु रचितवान् सर्वे जनाः उत्तमम् उत्तमं, उत्तमं वदन्ति स्म परन्तु एतत् श्लोकं श्रुत्वा तत्र एकः मृगः अवदत् मृग तत्र गतवान् मृगः इत्युक्ते इदानीं डियर् इति चिन्तयतु सर्वे हा मृगः किम् उक्तवान् इदानीं वदतु राधा भगिनी मृगस्य उपयोगाः सन्ति वा मृगस्य उपयोगाः सन्ति वा भूमिभारभूता भवेत् वा मृगः पशु भूमिभारः अस्ति वा मृगः भवत्या चिन्तनं कुरु मृगस्य न भूमिभारं तस्य जननं तस्य तत्र अस्ति तत्कारणं ते भूमिभारं नास्ति नास्ति कथं वयं वदामः मृगः भूमिभारभूता इत्युक्ते उपयोगिनः नास्ति मृगाः इति न वक्तुं शक्नुमः मृगस्य उपयोगः तदस्ति चर्मः अस्ति ब्रह्मचारिणः चर्मं धारन्ति धरन्ति अनन्तरं शृङ्ग अस्ति मृगस्य तस्य उपयोगं भवति इतोपि तत्र साहित्येषु अपि मृगनयना नेत्रे नेत्रयोः सौन्दर्यस्य कारणतः एव मृगाक्षी हरिणाक्षी मृगनयना एवम् एतादृशानि पदानि अपि सन्ति एवं खलु कथं भारभूतः अतः मृगः तत्र यथा राधाभगिनी वदी तथैव तत्र मृगः अवदत् अहं कथं भारभूतः मनुष्यस्य उपमाम उपमानम् कथं सङ्गच्छते मया कृते मम कृते इति सः उक्तवान् अस्तु इदानीं कवि किं कृतवान् कविश्लोकस्य परिष्करणं कृतवान् अन्तिमं पदं यत् मृगः अस्ति तत्र कवि रचितवान मनुष्यरूपेण चरन्ति गावः इति उक्तवान् गावः इत्युक्ते गौ धेनु तस्य बहुवचनान्तरूपं गावः तत्र धेन धेनवः विषये कवि तत्र स्थापितवान् येषाम् इदानीं सुभाषितं किम् भव अभवत् येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्म ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण चरन्ति गावः मनुष्यरूपेण गावः चरन्ति इति कवि स्थापितवान् अस्तु राधा भगिनी धन्यवादः इदानीं भारतमहोदयः <laughs> भारतमहोदयः तत्र धेनवः गावः शब्दस्य योजना योग्यं वा भवान् किं चिन्तयति तत्र मनुष्यरूपेण गावः चरन्ति मृगः प्रथमतः तु तत्र मृगः अनन्तरम् आब्जेक्षन् वाज़् रेस्ड् बै मृग किमर्थम् अहं कथं भुविभारभूता अहं न भुविभारभूता अहं कथं भारभूतः मनुष्यस्य उपमानं तत्र न सङ्गच्छते मम कृते इति सः उक्तवान् श्लोकस्य परिवर्तनं कविना कृतं मृगस्थाने धेनवः गावः इदानीं कविः वदति मनुष्यरूपेण गावः चरन्ति इत्युक्ते गावः विषये सः वदन्ति विद्या नास्ति तपो नास्ति दानं नास्ति ध्यानं नास्ति शीलं नास्ति गुणः नास्ति धर्मः नास्ति मर्त्यलोके भूयि भारभूता एव गावः इति कविः रचितवान् डु यु अग्री वित् दिस् गावः शब्दस्य योजना योग्यम् अस्ति वा न वा गावः वि यूज्लेस् वा उपयोगिनः नास्ति वा किं चिन्तयति भवान् द मीनिङ्ग् आफ् द स् प्रश्नः कः सो यु वा इन्स्टेड् आफ़् मृगः मृग् धेनु तत्तु परिवर्तनं कृतवान् कवि oh. परन्तु अहं पृच्छामि भवतः चिन्तने किम् आगच्छति गावः निरोप उपयोगिनः नास्ति वा निरुपयोगिनः वा किं ददाति धेनु अस्माकं संस्कृतभाषायां वदतु किं ददाति सम्यक् दुग्धं ददाति अतः तत्र गावः शब्दस्य योजना भवतः दृष्ट्या योग्यम् नास्ति नास्ति पथिव अभवत् तत्रापि तत्र गावः आगताः कथं वयं भारभूताः शुष्काणि तूर्णानि खादन्ति अपि वयं श्वेतं दुग्धं ददामः दद्मः हा अनन्तरं तत्र इतोपि उपयोगः कोऽपि वक्तुमिच्छति वा अहं वदा वदामि वा वदतु देनु पञ्चगव्यं ददाति देनु सर्वदेव धेनु सर्वदेवतास्वरूपम् अपि भवति अतः पूजनार्थं भवितुम् अर्हति देनु सम्यक् तत्र गोमे गोमयेन तत्र ग्रामीण ग्रामीणविभागे तत्र उपलेपनमपि ज जनाः कुर्वन्ति एवं रोगनिवारणार्थं यथा भवती उक्तवती तत्र गोमूत्रस्य योजनेन रोगनिर्निवार निवारणं भवति तत्र धेनवः तु श्रेष्ठा एव कथं कविः वदति मनुष्यरूपेण गावः चरन्ति न सर्वथा अयोग्यम् अस्तु कवि अस्तु अहं अन्यत्प्रकारेण वदामि इदानीं तृतीयं कविये रचितवान् तत्र अपि परिष्कृ परि रचितवान् मनुष्यरूपेण तृणं भवन्ति मनुष्यरूपेण तृणं भवति तृणम् तुनं, इदानीं रमणीभगिनी तृणम् इति योजना श्लोके तृणम् इति योजना प्रथमं ता तु रमणी योजनेन श्लोकं कथं भवेत् तत् पठतु अनन्तरं भवत्याः चिन्तनं वदतु योग्यं वा अयोग्यं अर्थात् प्रथमं तृणं येषां एकवारं श्लोकं पठतु तृणम् इति स्थापित्वा एकवारं दृश्यते येषां न, न विद्या न तपो न दानं ज्ञानं न शीलं गुणो न, न धर्मः ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाशरन्ति मृगाशरति तत्र तृणं भवन्ति इति वदतु मनुष्यरूपेण मनुष्यरूपेण यः मनुष्यः एकवारं वदतु मनुष्यरूपेण तृणं भवन्ति इति वदतु मनुष्यरूपेण तृणं भवन्ति एषा रचना तत्र सिद्धा इदानीं किम् अभवत् भवत्याः चिन्तनं किं तृणम् इति उपयोगिनः नास्ति वा तृणस्य उपयोगः नास्ति वा भवत्याः तृणस्य उपयोगमस्ति अस्ति कुत्र कुत्र अस्ति वदतु धेनवः तृणं खादित्वा जीवन् जीवन्तं सम्यक् धेनवः अन्यमृगाः अपि अश्व अनन्तरम् अन्यमृगाः अपि तृणं खादन्ति सम्यक् तृणानि खादन्ति इति तृणानि तृणं तृणानि ऋणानि खादन्ति कृषकाः ऋणस्य उपयोगं कृत्वा तस्य भवनं भवनस्य निर्माणं करोति उत्तमं भगिनि उत्तम कुर्वन्ति ऋणस्य अनन्तरं तृणस्य तृणस्य तृणस्य उपयोगं कृत्वा भूमौ भूमौ तृणम् उपयुज्य मनुष्याः मनुष्याः तस्य उपरि Uh, ोपरि उपविशति hmm. हा, हा इत्युक्ते ग्रीष्मकाले विशेषतः तत्र पाददाहक दाहकता यदस्ति पाददाहकम् अस्ति तत् अपनयति तृणानि एवमस्ति खलु हा एतत् सर्वम् उपयोग इत्युक्ते भवत्याः मतानुसारणं तत्र तृणानि तृणम् इति अयोग्यम् एवमस्ति हा तृणस्य तृणस्य समानं नास्ति यस्य मनुष्यस्य विद्या नास्ति सभा नास्ति ज्ञानं नास्ति य मनुष्य मनुष्यः तृणसमानं नास्ति तृणस्य उपयोगम् अस्ति अस्ति तृणेन सह मनुष्यस्य तोलनं न युक्तम् इति भवति वदति तृणं भारभूतम् इति नास्ति त्राज तपोनदान तत् मतलोके भूमि भारभूता ये नास्ति मनुष्यम तृण नास्तम इन किवत कवि श्लोक रचना राधा भगिनी वजती मृगा्य पिवर्तन गावे गाव स्थापित्वा भारतमहोदय वदति गावः अपि अयोग्यम् परिवर्तनं जायते तत्र गावस्थाने तृणम् इति स्थापित्वा रमणीभगिति वक्ति अयोग्यम् तृणम् अपि तत्र न युज्यते न भवेत् न युक्तम् एव तृणस्य तत्र तृणेन सह तोलनं न युक्तम् इति रमणीभगिनी वदति इदानीम् किम् कवि पुनः एकवार परिष्कृतवान् सर्वेषां मतानां स्वीकृत्य तत्र कविः परिवर्तनं करोति कविः वदति मनुष्यरूपेण वृक्षाः भवन्ति तत्र वृक्षाः इति स्थापितवान् इदानीं जयन्तिभगिन्याः अवसर जयन्तिभगिनी वदतु भवत्याः भवत्याः मतानुसारेण तत्र वृक्षाः योग्यमस्ति वा वदतु न न कथं ेषां न विद्या न तपो दानं ज्ञानं ज्ञा ज्ञानं येषां न विद्या न तपः न दानं ज्ञानं न शीलं न गुणो न धर्मः ते मध्यलोके भुविभारभूताः मनुष्यरूपेण मृगैव भवति भवन्ति इति कल इति खलु कवि कवी श्लोकं कविना रचितम् वृक्षः उपयोगं वृक्षस्य उपयोगं तु भवति एव भगिनी वृक्षं वृक्षवृक्षः फलं ददाति फलं फलानि द ददति अनन्तरं छाया ददाति तापकाले छायां ददाति तदनन्तरं वृक्ष वृक्ष वृक्षार्थम् एव वर्षमपि भविष्यति सम्यक् वृक्षः वृक्षः तस्य दण्डः यज्ञार्थं भवितुं यज्ञार्थं प्रयोजनं कर्तुं शक्यते अनेक अनेक बहवः बहवः किं वक्तव्यं प्रयोजनं भवति एव वृक्षस्य रूपे मनुष्यसमानं वृक्षः न न तत्र पक्षिणाम् आश्रयभूतः वृक्षः कृमिकृमयः वा तत्र जन्तवः तेषां कृते अपि आश्रयभूताः वृक्षाः सन्ति महोपकारिणः इति वक्तुं शक्नुमः मनुष्यरूपेण वृक्षाः शरन्ति सर्वथा अयोग्यम् जयन्ति भगिनी एकवाक्यम् अहं वदनी वदामि वा, वृक्षः तु वृक्षः तु परोपकारार्थम् एव जीवति अस्तु इदानीं जयन्तीभगिनी भवत्याः मतानुसारेण तत्र कवि श्रुतवान् आसीत् भवत्याः मतम् अनुसृत्य तत्र परिष्करणम् अभवत् इदानीं ऐ मीन् ऐ कुडिन् अण्डर्टान् तत्र पुनः एकवारं तत्र पुनः एकवारं सः रचनां कृतवान् भवत्याः यत् मतम् अस्ति तत् सः श्रुतवान् तत्र भुजराजसमिति भोजराज्ञः तत्र आस्थाने यः कविः आसीत् सः श्रुतवान् भवत्याः मतं परिवर्तनं परिवर्तनं किं भवति मनुष्यरूपेण धूलिपुञ्जाः भवन्ति इति परिवर्तनं सः कृतवान् धूलिकणानां योजनां तत्र सः कृतवान् वीणाभगिन्याः अवसरः मनुष्यरूपेण धूलिपुञ्जाः भवन्ति धूलिकण धूलिकणः इति तत्र धूलिकणानां तत्र निरुपयोगिनः धूलिकणः इति वक्तुं शक्नुमः वा विनाभगिनी भवत्याः मतं वदतु अहं मन्ये धूलि धूलिकरणं धूलिकरणस्य उपयोगः नास्ति वा <laughs> <laughs> तथैव अद्यदिनस्य कथा तथैव प्रचलति इदानीम् अहं चिन्तितवती पठनं मास्तु वयं सर्वे मिलित्वा कथायाः रचनां कुर्मः इति मम विचारः धूलिकण यदा स्थापितवान् दुयुहाविनि आब्जेक्षन् फार् धूलिकण तत्र वा योग्यमस्ति धूलिकणः धूलिकणानाम् उपयोगः अस्ति अहं मन्ये नास्ति भगिनि उपयोगम नास्ति इत्युक्ते इत्युक्ते योग्यं यदा डस्ट् पार्टिकल् तथा धूलिकणाः तत्र न अस्ति चेत् न सन्ति चेत् किमपि न हानि वा तस्यापि हानि नास्ति वा आ, तत् तस्य उपयोगम् अपि नास्ति वा नास्ति खलु मतपरिवर्तने वा अन्य कोऽपि किं चिन्तयति अन्यूट् कृत्वा वदतु धूलिकानाम् उपयोगः नास्ति एव इति विना भगिनी वदति अन्येषां मनसि वदन्तु सर्वे दोलिनां दूलीनां राशिं समूहः एव मृत्पाण्ड मृत्पाण्डानि भवितुम् अर्हति भगिनी तदपि सहयोगं भवति एव यदा धूलिकणाः mm. तत्र न सन्ति चेत् बीजानां mm. पोषणं कथं भवति mm. बीजानां पोषणं न भवति चेत् फलानि mm. पुष्पाणि कथं वर्धयन्ति mm. होलिकापर्व तत्र होलिकापर्वे वयं किं कुर्मः प्रदेशे एव वयं सर्वे क्रीणामः एवं खलु शिशवः तत् अपि अपि आनन्देन क्रीडन्ति खलु धूलिमध्ये अतः धूलिकणा राधा वीणा भगिनी धूलिकणानाम् अपि उपयोगः अस्ति अस्ति तत्र हा तथैव भवत्याः मतानुसारेण तत् चिन्ता मास्तु अतः तत्र धूलिकण इति शब्दस्य योजना न योग्यम् अनुचितम् अस्तु एतदपि कविः तत्र श्रुतवान् आसीत् पुनः एकवारं परिष्कृतवान् तत्र किम् उक्तवान् पश्यन्तु इदानीं तत्र सः स्थापितवान् मनुष्यरूपेण शुनः भवन्ति शुनः शुनः भवन्ति इत्युक्ते इदानीं श्यामला भगिनी पठति वा श्लोकमेकवारम् आम् हा पठामि येषां न विद्या न तपो न धानं ज्ञानं न शीलं न गुणो न धर्मः देमर्त्यलोके भुविभारभूता भुविभारभूता रूपेण मृगाश्चरन्ति मृगाः स्थाने तत्र आगच्छति शूनः चरन्ति इति इदानीं शूनः इति अस्ति इदानीं भवत् भवन्तः सर्वे चिन्तयतु शूनः डाक् निरुपयोगिनः वा किं किं वदन्ति सर्वे प्रयोगमस्ति सुनकस्य प्रयो प्रयोजनम् अस्ति एव अस्ति गुत्र, गृहस्य त्राणार्थं त्रा, भवितुम् अर्हति कालक्षेममध्ये अस्माकम् आचार्य वदति वेणीनकुनकस्य सुनकस्य निप्रयोजनं भवति इति एक मानवः उक्तवान् तद आचार्याः वदन्ति किमर्थम् सुनकस्य टैल् तद किल तद् स्ट्रैट् एव भवति सर्वदा स्ट्रैट् एव भवति किमर्थं शुनकस्य टैल् किमपि प्रयोजनं नास्ति पृच्छुनकस्य पृच्छः पृच्छस्य किमपि प्रयोजनं नास्ति इति उक्तवान् आचार्याः वदन्ति भवतः कृते उदाहरणं वद वक्तुं वदनार्थम् एव तस्य शुनकस्य वृच्छः स्ट्रैट् भवति इति आचार्य सत्यं सत्यम् इत्युक्ते तत्र शुनकः तत्र न स्थापितव्यं स्वामिभक्त अस्ति गृहस्य रक्षणं करोति सदा क्रियाशीलः अपि अस्ति शुनकः तत्र स्वभावे एव तस्य बुद्धिवान् अपि अस्ति शुनकः बुद्धिः चतुरः अस्ति मानवतुल्यता अयोग्यम् अस्तु पुनः एकवारं भवन्तः सर्वे उक्तवान् तत् मतानुसारेण पुनः एकवारं कवि परिष्कृतवान् इदानीं सः स्थापितवान् मनुष्यरूपेण चरती खरा चर इधर खरा तक खरा शब्द से योजना नास्ति वा. योग्य अपयोगास्तान स इत्युक्ते तत्र सदा ते भारवहने मग्नाः सन्ति किं भक्षन्ति तृणमात्रमेव तृणमात्रं भक्षन्ति परन्तु तत्र शैत्यं भवेत् वा उष्णतापं भवेत् सर्वदा कार्यं कुर्वन्ति एवमस्ति बहुगुणयुक्ता अस्ति अतः कथम् रूपेण जीवन्ति कथं गुणहीना इति वदति कवि न तत् खरस्य योजना खरशब्दस्य योजना अपि भवेत। न भवेत् पश्यन्तु नौ लेट् गो टु दिगिनिङ्ग् तत्र मृगाः चरन्ति मृगानां शब्दस्य मृगशब्दस्य परिष्कृ कविपरिष्कृतवान् तत्र किं स्थापितवान् कः शब्दः तत्र अनन्तरम् अनन्तरं तृणं तृणं तृणानि अनन्तरं वृक्षः सम्यक् अनन्तरं धूलीगणानां धूलिकणाः धूलिपुञ्जाः इति स्थापितवान् अनन्तरं शुनकः शुनकः सम्यक् अनन्तरम् अन्तिमे हरः अस्तु इत्युक्ते यह यह परिष्कारह तत्र जातः परिष्कारं तु अयोग्यम् एव अस्तु इदानीं किं करोमि कविः पुनः एकवारं चिन्तितवान् अन्तिमं लिखितवान् मनुष्यरूपेण भवन्ति काकाः काकाः कृ मनुष्यरूपेण भवन्ति काकाः योग्यं वा वदन्तु न योग्यं किमर्थं न योग्यं वदतु काक पितृरूपं भवति एव पश्यतु तत्र काकस्य विषये स्वस्य खादनं स्वस्य या आवश्यकता सः तस्य आत्मनिर्भरः इति वक्तुं शक्नुमः एव कार्यं करोति तत्र ये जनाः तत्र डो जु बिलिव् शकुनज्ञाः ते अपि वदन्ति तत्र काकं काकस्य यत् रौरव अस्ति तत् किमपि इति अहं निरुपयोगी इति मा वदन्तु कृपया इति काकः उक्तवान् अन्तिमं परिष्कृतम् अन्तिम समये करण अभवत स्था मनुष्येण भस्मूता चरती भस्म, भस्म वदतु। भस्म योग्यदर Hmm. योग्यम् इतोपि भगवन्तस्य शिरे अपि भवति भवान् शिवः तु मङ्गलं भवति भष्मं तु मङ्गलं रूपेण शिव शिवः धर धरति मङ्गलरूपेण इतोपि तत्र भस्मस्य अपरः नाम विभूति भस्मस्य अपरः नाम विभूति रक्षा इति अस्ति खलु रक्षा तत्र रक्षा इत्युक्ते तस्य रक्षणकर्तृत्वम् अस्ति तत्र कदा कदा तद्भस्म सुगन्धयुक्तः अपि अस्ति सुगन्धयुक्ता तत्र धान्यानि धान्यानि रक्षयति अनन्तरं इतोपि तत्र दन्तचूर्णे अपि ग्रामीणविभागे तत्र दन्तचूर्णे जनाः तस्य मिश्रणं कृत्वा ते तस्य कुर्वन्ति, दंतशुद्ध क्या उपयोजन तस्वीर अत मनुष्येण भस्म तोलनम्यं अस्त इधीय आक्षेपा त्रक्षेप तो सी कव इदानं नितरां श्राता पुनः पुनः स आक्षेपान् श्रुतवान् यस्य यस्य सादृशं तुलना सह वक्तुम् इच्छति तदा तदा तत्र आक्षेपः एकवारं राधाभगिनी आक्षेपं करोति अनन्तरं भारतमहोदय रमणीभगिनी जयन्तीभगिनी वीणाभगिनी श्याम्बलाभगिनी सर्वेषां कृते तत्र आक्षेपः वर्तते सर्वेषां शब्दानां कृते अन्ते अनन्यगतिकतया श्लोकः कवि तस्य पुनरचना कृतवान् सः उक्तवान् येषां न विद्या न तपो न दानम् ज्ञानं न शीलम् न गुणो न धर्मः ते मर्त्यलोके भूता कस्य तुलताम् केषाम् वक्तव्या इति तु भगवान् एव ज्ञाता <laughs> भगवान् एव जानाति अहं न <laughs> जानामि ते कीदृशाः अहं न जानामि भगवान् एव जानाति इति अन्तिमं श्लोकस्य अन्तिमम् पंग, अन्तिमा पङ्क्तेः परिवर्तनम् अभवत् सम्यक् <laughs> बेनि अहं चिन्तितवती मनुष्यरूपेण मनुष्यैव चरन्ति इति तथैव मम चिन्तनम् अद्य दिने तथैव आसीत् तत् बहुवारं वयं पठितवन्तः तत्र वयं कदा कदा तत्र कोऽपि इति बाधा नास्ति परन्तु भवन्तः सर्वे वदन्ति चेत् इतोपि सम्यक् भवति इदानीं कथायाः रचना वयं सर्वे मिलित्वा कृतवन्तः एवं खलु अस्तु इतोपि एकवारं वयं किञ्चित् अभ्यासं कुर्मः त्वान्तविषयस्य अनन्तरं समापयामः तत्र स्म प्रत्ययस्य वयम् अभ्यासं न कृतवान् प्रयोगः तत्र पश्यन्तु अत्र एतत् सर्वं यम् अस्माकं जालपुटे दृश्यते खलु दृश्यते दृश्यते वयम् अद्यदिने वयम् अत्र प्रत्यय तुमुन् प्रत्ययः तत् वयं समापितवन्तः अपेक्षया इति अग्रिमे वर्गे स्मः प्रयोगः तत्र वयम् अभ्यासः शेषः अस्ति तत् वयं कुर्मः स्मः <laughs> चित्रं दृष्ट्वा तत्र पठतु अत्र श्यामलाभगिनी पठति वा चित्रं दृष्ट्वा अस्तु भगिनि हा पठति वा श्यामलाभगिनी स्म प्रयोगः स्म इति अव्ययम् भगिनी तत्र स्क्रीन् उपरि दृश्यते चित्रं दृष्ट्वा कः कः किं किं करोति स्म इति लिखतु इति दृश्यते खलु इदानीं चित्रं दृष्ट्वा कः कः किं किं करोति स्म इति लिखतु उदाहरणार्थं दत्तमस्ति तत्र बालकः पठति स्म अग्रिमे किमस्ति वदति वा बालकः बालक निद्रां करोति स्म सम्यक् अग्रिमे बालकः पुस् पुस्तकं पठति स्म सम्यक् अग्रिमे ीन् उपरि न दृश्यते इदानीं बालिका गायति स्म सम्यक् अग्रिमे बालक बालकाः बालका, स्विमिङ्ग् इत्युक्ते तरणं कुर्वन्ति स्म तरणं कुर्वन्ति बालकाः तरणं कुर्वन्ति स्म अग्रिमे कृष कृषकः धेनुः धेनुः दे, गच्छति स्म तत्र कर्षणं कार्यं प्रचलति खलु कर्षणं करोति स्म हा अस्तु अग्रिमे बालकाः बालकाः आरोहति स्म आरोहति स्म सम्यक् आरोहति स्म सोपानानि अग्रिमे बालकाः बालकाः क्री ग्रे, क्रीडां करोति स्म योग्यम् अग्रिमे बालिका स्म सम्यक् जलं पिबति स्म शक्नुमः बालिका नमति स्म बालिका नमति स्म सिंहः सिंहः पश्यति स्म सम्यक् उत्तमम् अग्रिमे बालिका पचति स्म सम्यक् बा बालक बालकः पश्यति स्म तत्र हस्ते तत् भिङ्गरूपेण तत् अवलोकयति स्म इति वक्तुं शक्नुमः सूक्ष्मरीत्या सः पश्यति खलु अतः तत्र पश्यति अपि योग्यमेव परन्तु तत् अवलोकनं करोति बालकः तत्र <laughs> <laughs> अग्रिमे बालिका <laughs> खादति <laughs> <अगरी में? laughs> <laughs> स्म उत्तमम् अग्रिमे बालिकाः बालिकाः विद्यालये बालिकाः गृहम् आगच्छन्ति स्म विद्यालयतः गृहम् आगच्छन्ति छात्राः विद्यालयतः गृहम् आगच्छन्ति तत्र हास्यं हास्य दृश्यते खलु विद्यालयं न गच्छन्ति सर्वे गृहं गच्छन्ति इदानीं क्रीडाङ्गणं गन्तव्यमस्ति अतः प्रत्यागं स्म गजं प्रत्यागच्छन्ति स्म प्रत्यागच्छन्ति स्म अग्रिमं गजः गच्छति स्म अस्तु सम्यक् अग्रिमम् बालकः टिचिङ्ग् इत्युक्ते इति स्म अग्रिमे बा महिला लिखति स्म सम्यक् पुरुषाः पात्राणि पत्रवाहकः पत्राणि पत्रवाहकः पत्राणि ददाति स्म वा पत्राणां वितरणं करोति स्म इति अपि योग्यम् अग्रिमम् जोकर् इत्युक्ते विदूषकः वा विदुषकः विदूषकः विदुषति स्म विदूषकः विदूषकः हसति स्म विनोदनिर्माणं करोति स्म विनोदनिर्वहारार्थं विनोदनिर्माणं hmm. करोति स्म अग्रिमे uh. uh. मयूरः नृत्यति स्मूरः मयूरः किं करोति मयूरः सति uh. uh, uh, hmm. uh. स्म तिष्ठति स्म स्टेण्डिङ्ग् इत्युक्ते तिष्ठतिः तिष्ठति स्म पर्याप्तं भगिनी धन्यवादः अन्तिमं भारतमहोदयः करोति वा भारतमहोदय स्म उपयुज्य वदति वा अस्ति वा भारतमहोदय हां, हलोभारत महोदय सम्यक् शक्नुमः बालकः नृत्यति स्म सम्यक् उत्तमम् अग्रिम शिक्षकः शिक्षकः पाठम् पश्यन्तु तत्र शिक्षकः मेल् टीचर् शिक्षिका इति तत्र शिक्षिका दृश्यते अनन्तरं तत्र पठति पाठयति हा पठति इत्युक्ते स्वयम् अध्ययनं करोति सः पुस्तकं पठति परन्तु शिक्षिकायाः कार्यं किमस्ति पाठनं करणीयं तत्र, छात्रान तत्र तुछ। तुछ। तुछ। तुछ। शिक्षिका छात्रान् प्रेरयति कथं पाठनं करणीयं केन प्रकारेण पठनं भवेत् इति सा प्रेरयति अतः तत्र पाठयति इति क्रियापदस्य योजना भवेत् शिक्षिका पाठयति स्म एकवारं वदतु पुनः एकवारं शिक्षिका स्म सम्यक् इदानीं यदा अहं वदामि सः कार्यं करोति सः कार्यं करोति सः कार्यं कारयति द्वयोः मध्ये भेदः अस्ति वा भारतमहोदयति अन्यान् प्रेरयति कार्यस्य कृते यदा कार्यं करोति इत्युक्ते तत्र कार्यं करोति अस्ति चेत् स्वयमेव कार्यं करोति कारयति इत्युक्ते अन्यान् प्रेरय प्रेरयति प्रेरणां ददाति स्वयं कार्यं न करोति केवलं प्रेरणा ददाति प्रेरयति इति भेदः अस्तु अग्रिमम् गायकः गीतं गाय गायकः गीतं गाय गीतं गायति स्म सत्यं योग्यम् अग्रिमं भिक्षु भिक्षुकः भिक्षुकः भिक्षा, इं? भिक्षा, इं? भिक्षा नयति स्म वा स्वीकरोति स्म भिक्षं भिक्षुकः भिक्षां स्वीकरोति स्म इति अस्ति तत्र याचकरूपेण तत्र भिक्षुकः अस्ति दानं स्वीकरोति याचकरूपेण भिक्षुकः तत्र दानं वा यथा भवान् भिक्षा स्वीकरोति भिक्षायाः ग्रहणं करोति भिक्षां प्राप्नोति एकम् एवं वाक्यं <laughs> तत्र भिन्नभिन्नप्रकारेण अस्माकं मनसि चिन्तनं वयं कर्तुं शक्नुमः भिक्षां प्राप्नोति यथा भवान् भिक्षां नयति भिक्षां स्वीकरोति भिक्षाम् इच्छति तत्र इतोपि सम्भावना भवितुम् इतोपि सः इष्टवान् आसीत् इति वक्तुं शक्नुमः इतोपि इच्छति सः याचकरूपेण तत्र अस्ति भिक्षुकः याचकः तत्र mm -hmm. याचनां करोति भिक्षायाः याचनां करोति अस्तु महोदय स्पष्टमस्ति yeah. धन्यवादाः धन्यवादः इति अस्ति अस्माकं मम प्रयोगः तत्वयम् समापिटवन्तः अद्यदिन अस्तु यानि स्थिरमहो एकानि मिशा